अथ त्रिंशदधिकद्विशततमोऽध्यायः जरितोवाच अस्माद्विलान्निष्पतितमाखुं श्येनोजहारतं क्षुद्रं पद्भ्यां गृहीत्वा चायातो नात्र भयं हि वः शार्ङ्गका ऊचुः न हृतं तं वयं विद्मः श्येनाखुं कथञ्चन अन्येऽपि भवितारोत्रा तेभ्योऽपि भयमेव नः संशयो वह्निरागच्छेद्दृष्टम् वायोर्निवर्तनम् मृत्युर्नो बिलवासिभ्यो बिले स्यान्नत्र संशयः निःसंशयात् संशयितो मृत्युर्मातर्विशिष्यते जरखेत्वं यथा न्यायं पुत्रानाप्स्यसि शोभनान् जरितोवाच अहं वेगेन तं यान्तमद्राक्षं पततां वरं बिलादाखुं समादाया श्येनं पुत्रा तं पतन्तं महावेगात् त्वरिता पृष्ठतोऽन्वगाम् आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकम् बिलात् यो नोद्वेष्टारमादाय श्येन राजप्रधावसि भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः स यदा भक्षितस्तेन तदाहं तमनुज्ञाप्या प्रत्युपायां पुनर्गृहम् प्रविशध्वम् बिलं पुत्रा विश्रब्धा नास्ति वो भयम् श्यनेन मम पश्यन्त्या हृत आखुर्महात्मना शार्ङ्गका ऊचुः नविद्महे विद्महे हृतं मातः श्येनाखुं कथञ्चन अविज्ञाय न शक्यामः प्रवेष्टुं विवरं भुवः जरितोवाच अहं तमभिजानामि हृतं श्येन मूषिकं नास्ति वोत्र